अथ सप्ताधिकशततमः सर्गः पुनरेवम् बृगाणम् तम् भरतम् लक्ष्मणाग्रजः प्रत्युवाच ततः श्रीमान् ज्ञाति मध्ये सुसत्कृतः उपपन्नमिदम् वाक्यम् यस्त्वमेवमभाषथाः जातः पुत्रो दशरथात् कैकेय्याम् राजसत्तमात् पुरा पिता नः मातामहे समाश्रौषी द्राज्यशुल्कमनुत्तमम् देवासुरे च सङ्ग्रामे जनन्यैतव पार्थिवः सम्प्रहृष्टो ददौ राजावरमाराधितः प्रभुः ततः सा सम्प्रति श्राव्य तव माता यशस्विनी अयाचत नरश्रेष्ठम् द्वौ वरौ वरवर्णिनी वर तव राज्यम् न रव्याघ्र तथा तच्च राजा तथा तस्यै नियुक्तः प्रददौ वरम् तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभा चतुर्दश वने वासं वर्षाणि वरदानिकम् सोयं वनमिदम् प्राप्तो निर्जनं लक्ष्मणान्वितः सीतया च प्रतिद्वन्द्वः सत्यवादे स्थितः भवानपि तथेत्येव पितरम् सत्यवादिनम् कर्तुमर्हसि राजेन्द्र क्षिप्रमेवाभिषिञ्चनात् ऋणान्मोचय राजानम् मत्कृते भरत प्रभुम् पितरन्त्रा हि धर्मज्ञमातरम् चाभिनन्दय श्रूयते धीमतातातश्रुतिर्गीता यशस्विना गयेन यजमानेन गयेष्वेव पितॄन्प्रती पुन्नाम् नो नरकाद्यस्मात्पितरन्त्रायते सुतः तस्मात्पुत्र इति प्रोक्तः पितृन्यः पाति सर्वतः येष्टव्या बहवः पुत्रा गुणवन्तो बहु श्रुताः तेषाम् वै समवेतानामपि कश्चिद्गयाम् रजेत् एवम् राजर्षयः सर्वे प्रतीता रघुनन्दना तस्मात्राहि नरः श्रेष्ठपितरम् नरकात् प्रभो अयोध्याम् गच्छ भरत प्रकृतिरुपरञ्जय सहितो वीर सह सर्वैद्विजातिभिः प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् आभ्याम् तुसहितो वीर वैदेह्यालक्ष्मणेन च त्वम् राजा भरत भवस्वयम् नराणाम् वन्यानामहमपि राजराण्मृगाणाम् गच्छ त्वम् पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये छायाम् ते दिनकरभाः प्रबाधमानम् वर्षत्रम् भरत करोतु मूर्ध्मिशीताम् एतेषामहमपि काननद्रुमाणाम् छायाम् तामतिशयिनीम् सहायः सौमित्रर्मम विदितः प्रधानमित्रम् चत्वारस्तनयवरामयम् नरेन्द्रम् सत्यस्थम् भरत इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे सप्ताधिकशततमः